पिष्टोदकम् सुतो यस्य पीत्वा क्षीरस्य तृष्णया नृत्यति स्म मुदाविष्टः क्षीरम् पीतम् मयाप्युत इति सम्भाषता पूर्वस्नेहानुरागित्वात् सदारः सोम तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन् प्रियम् सखायं सुप्रीतो राज्यस्थम् समुपागमम् संस्मरन् सङ्गमम् चैव वचनम् चैव तस्य ततो द्रुपदमागम्य सखि पूर्वमहम् प्रभो अब्रुवम् पुरुष व्याघ्र सखायम् उपस्थितस्तु द्रुपदम् सखि वच्चास्मि सङ्गतः स माम् निराकारमिव अकृतेयम् तव प्रज्ञा ब्रह्मन्नाति समञ्जसा यदान्त माम् त्वम् प्रसभम् सखातेऽहमिति द्विज सङ्गतानीह जीर्यन्ति कालेन परिजीर्यतः सौहृदम् मे पूर्वं ह्यासीत् पूर्वम् सामर्थ्य बन्धनम् नाश्रोत्रियः सखा साभ्याद्धि सख्यम् भवति वैशम्यान्नोपपद्यते न लोके विद्यते जातु कस्यचित् कालो विहरति क्रोधो हरत्युत मैवम् जीर्णमुपास्व त्वम् सत्यम् भवत्वपाकृधि आसीत् सख्यम् द्विज श्रेष्ठ त्वयामेर्धनि बन्धनम् न ह्यनाढ्यः सखा ढ्यस्य किमिष्यते न हि राज्ञामुदीर्णानामेवम्भूतेर्नरैः भवति मन्दात्मन् श्रियाहीनेर्धनैच्युतैः ना श्रोत्रियः श्रोत्रियस्य नाराजा पार्थिवस्यापि सखि पूर्वम् किमिष्यते अहम् त्वया न जानामि राज्यार्थे संविदम् कृताम् एकरात्रम् तु ते ब्रह्मन् कामं दास्यामि भोजनं। एवमुक्तस्त्वहम् तेन सदारः प्रस्थितस्तदा ताम् प्रतिज्ञाम् प्रतिज्ञाययाम् कर्तास्म्यचिरादिव द्रुपदेनैव मुक्तोऽहम् मन्युनाभि परिप्लुतः अभ्यागच्छम् कुरोन् भीष्मशिष्यैरर्थी ततोऽहम् भवतः कामम् संवर्धयितुमागतः इदम् नागपुरम् रम्यम् ब्रूहितिम् करवाणिते वैशम्पायनो वाच एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत भीष्म उवाच अपज्यम् क्रियताम् चापं साध्वस्त्रम् प्रतिपादय भुङ्क्ष्व भोगान् भृशम् कुरुक्षये कुरूणामस्ति यद्वित्तम् राज्यम् चेदम् स त्वमेव परमो राजा सर्वे च कुरवस्तव यच्चते प्राधितं प्रार्थितम् कृतं तदिति चिन्त्यताम् दिष्ट्या प्राप्तोसि विप्रर्षे महान् मेऽनुग्रहः कृतः इति श्रीमहाभारते आदिपर्वणि सम्भव पर्वणि भीष्म द्रोण समागमे त्रिंशदधिकशतमोऽध्यायः